मः सर्गः अथ भूमिप्रदेशज्ञाः सूत्रकर्म विशारदाः स्वकर्माभिरताः शूराः खनकायन्त्रकास्तथा कर्मान्तिकास्थपदयः पुरुषायन्त्रको विदाः तथा वर्धकयश्चैव मार्गिणो वृक्षरक्षकाः सूपकाराः सुधाकारा वंशचर्म समर्थाये ये च द्रष्टारः पुरतश्च प्रतस्थिरे स तु हर्षात्तमुद्देशम् जनौ गो विपुलः अशोभत महावेगः सागरस्येव पर्वणि ते स्ववारम् समास्थाय वर्त्मकर्मणि कोविदाः करणैर्विविधोपेतैः पुरस्तात् सम्प्रत स्थिरे लतावल्लीश्च जलास्ते चक्ररे मार्गम् छिन्दन्तो विविधान् द्रुमान् अवृक्षेषु च देशेषु केचिद्वृक्षाणरोपयन् केचित्कुठारैष्टङ्कैश्च दात्रैश्चिन्दन् क्वचित् क्वचित् अपरे वीरणस्तम्बान् बलिनो बलवत्तराः विधमन्ति स्म दुर्गाणि स्थलानि च ततस्ततः अपरे पूरयन् कूपान् पांसुभिश्वभ्रमाय तम् निम्नभागांस्तथैवाशु समांश्चक्रुः समन्ततः बबन्धुर्बन्धनीयांश्चक्षोद्यान् सञ्चुक्षुदुस्तथा डिभिदुर्भेदनीयांश्च अचिरेण तु कालेन परिवाहान् बहूदकान् चक्रुर्बहुविधाकारान् सागरप्रतिमान् बहून् निर्जलेषु च देशेषु खानयामासुरुत्तमान् उदपानान् बहुविधान् वेदिकापरिमण्डितान् ससुधा कुट्टिमतलः प्रपुष्पितमहीरुहः मत्तोद्घुष्टद्विजगणः पताकाभिरलङ्कृतः चन्दनोदकसंसिक्तो नानाकुसुमभूषितः बह्वशोभत सेनायाः पन्थाः सुरपथोपमः आज्ञाप्याथ यथाज्ञप्तियुक्तास्तेऽधिकृता नराः रमणीयेषु देशेषु बहु स्वादुफलेषु च यो निवेशस्त्वभिप्रेतो भरतस्य महात्मनः भूयस्तम् शोभया माधुर्भूषाभिर्भूषणोपमम् नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः निवेशान्स्थापयामासुर्भरतस्य महात्मनः बहुपांसुचयाश्चापि परिखाः परिवारिताः तत्रेन्द्रनीलप्रतिमाः प्रतोलीवरशोभिताः प्रासादमाला सौधप्राकारसंवृताः पताशो भे सुनम विसर्पद्भिरीवाकाशे विटंकाग्र विमानक स्रितभुशक्रपुरप जाहवीं तो सद्य विवधद्रुम कानना शीतलामलपानीयाम् महामेन समाकुलाम् स विराजते नरेन्द्र मार्गः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अशीतितमः